विष्णुसुप्तम् श्रीगुरुभ्यो नमः हरिः ॐ विष्णोर्नुकं वीर्याणि प्रवोचं पार्थिवालि पार्थिवाणि विममे रजागंसि यो अस्कभायदुत्तरगम् अधस्थं विचक्रमाणः श्रीधोरुगायो विष्णुरराटमसि विष्णो ओ कृष्णमसि विष्णो स्नस्त्रेष्ठो विष्णो चूरसि विष्णो अध्रुवमसि वैष्णवमसि विष्णवे त्वां तदस्य प्रियमभिपायो उपश्यां नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि विष्णो पदे परमे मद्व मध्वस प्रतद्विष्णोस्तव इति विर्याय मृगो भीम भीमकुचरो गिरिष्ठाः यस्यो इषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवाविधानम् न ते महित्वान्मन्वश्नुवन्ति उभेते ते विद्म रजसी पृथिव्या विष्णो देवत्वं परमश्च विस्त्री विच्चकं विच्च विचक्रमे पृथिवीमे स एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् द्रुवासोऽस्य उरुक्षितगं सुजनिमाचकार पृथिवीमेष एतां विचक्रमे सतर्च संमहित्वा प्रविष्णुरस्तुत्तवशस्तवीयां प्रेसज्ञस्य स्थविरस्य नाम अतो देवा अमन्तु नो यतो विष्णुविचक्रमे पृथिव्याः सप्तं धामभिः इदं विष्णुविचक्रमे त्रेधा निदे पदम् समूढमस्य पाकं सुरे त्रीणि विचक्रमे विष्णुर्गोपा अदाऽभ्य ततो धर्माणि धारयन् विष्णो कर्माणि पश्यति यतो ओ व्रतानि पश्यति इन्द्रस्य यज्ञः सखा आ पदगं सदा पश्यन्ति सूरयः दिवि वचक्षुराततं तद्विप्रासो विपन्नवो सस्मिन्धते विष्णो यन् परमं पदम् पर्या आप्त्या अनन्तराजाय सर्वस्तोमोति रात्र उत्तम महर्भवति सर्वस्याप्त्यै सर्वस्य नित्यै सर्वमेव तेना आप्नोति सर्वं जयति ॐ शान्ते शान्ति शान्तिः हरिः ॐ तत्सत् श्रीरामकृष्णार्पणमस्तु